मन्त्रिणो भ्रातरश्चान्ये तद्वचः प्रत्यपूजयन् स तु राजामःप्राज्ञः पुनरेवात्मनात्मवान् भूयो विममृषे पार्थो लोकानाम् हितकाम्यया सामर्थ्ययोगम् सम्प्रेक्ष्य देशकालव्ययागमौ विमृश्य सम्यक् धिया कुर्वन् प्राज्ञो न सीदति न हि यज्ञसमारम्भः केवलात्मविनिश्चयात् भवतीति समाज्ञाया यत्नतः स निश्चयार्थम् कार्यस्य कृष्णमेव जनार्दनम् सर्वलोकात् परम् मत्वा जगाम मनसा हरिम् अप्रमेयम् महाबाहुम् कामाजमृषु कर्मभिर्देवसम्मतैः स्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजं न स किञ्चिन्न विषहेदिति कृष्णमन्यत स तु तां नैष्ठिकीं बुद्धिं शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् सप्रह्व प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् दूत उवाच धर्मराजो हृषि केशधौम्यव्यासादिभिः सह त्स्यसहितैर्भ्रातृभिश्चैव सर्वशः त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः वैशम्पायनुवाच इन्द्रसेनव च श्रुत्वा यादव प्रवरो बलि दर्शनाकाङ्क्षिणम् पार्थम् दर्शनाकाङ्क्षया च्युतः